अथाष्टमः सर्गः स तस्य मध्ये भवनस्य संस्थितो महद्विमानम् मणिरत्र चित्रितम् प्रतप्तजाम्बूनदजालकर्त्रिमम् ददर्शधीमान् पवनात्मजः कपिः तदप्रमेय प्रतिकारकर्त्रिमम् कृतम् स्वयम् साध्विति विश्वकर्मणा दिवङ्गते वायुपथे प्रतिष्ठितम् य राजतादित्यपथस्य लक्ष्म तत् न तत्र किञ्चिन्न कृतम् अनेक संस्थान विशेष निर्मितम् ततस्ततस्तुल्यविशेष निर्मितम् मनः समाधाय तु शीघ्रगामिनम् दुरासदम् मारुत मनोऽभिरामम् शरदिन्दु निर्मलम् विचित्रकूटं शिखरं गिरेर्यथा वहन्ति यत्कुण्डलशोभितानना महाशना व्योमचरा निशाचराः विवृत्त विध्वस्त विशालोचना महाजवा भूतगणाः सहस्रशः वसन्त पुष्पोत्कर स पुष्पकम् तत्र विमानमुत्तमम् ददर्श तद्वानरवीरसत्तमः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये सुन्दरकाण्डे अष्टमः